श्रीहरये नमः अतदसमोऽध्यायः श्रीशुक उवाच इति दानवदैते यो युक्ता कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः साधयित्वामृतं राजन् पाययित्वा स्वकान्सुरान् पश्यतां सर्वभूतानां ययौ सपत्नानां परां वृद्धिं दृष्ट्वो ते दीतिनन्दनाः प्रद्युत्यतायुधाः ततः शुरगणा सर्वे सुधया पीतयैर्दिताः प्रतिसंयुयुतुः सस्त्रैर्नारायणपधाश्रयाः तत्र दैवासुरो नाम रणः रोदस्युधन्वतो राजन्तु रोमहर्षणः तत्रान्योन्यं सपत्नासे सम्भ्रब्धमनसोरणे समासाद्य असि बिर्भाणेर्निजग्र्विविधायुधैः सङ्कतुर्यमृदङ्गानां भेरीडमरिणां महान् हस्त्यस्वरतपत्तीनां न दतां निःस्वतोऽभवत् रतिनोरदिभिस्तत्र भक्तिभिः सगपत्तयः हयाहयैरिभाश्चेभै समसज्जन्तष्ट्रै केचित् इभैः केचित् अपरे युयुधुक्करैः केचिद् गौरं ऋगैर् रुषैर्द्वीपीभिर्हरिभिर्भटाः घृत्रैकङ्कैर्भगैरन्ये श्ये नासैष्टिमिङ्गिलैहे शिवाभिराघुभिक्के चिद्ग्रकलासैसैर्नरैः भस्तैरेकै कृष्णसारैर्हंसैरन्ये च शूकरैः अन्ये जलस्तलगैः सत्वैर्विकृतविग्रहैः सेनयोरुभयो राजन् विवित् सुस्तेग्रथो ग्रतः चिद्रध्वजपटैर्जन् आतपत् त्रैसितामलैः महधनैर्वज्रदण्डैर्व्यजनैर्भार्गशामरैः वधोद्धूत उत्तरोष्णीषै अर्चिर्भिर्वर्मभूषणैः देवधानववीराणां त्वजिन्यौ पाण्डुनन्दन रे चतुर्वीरमाला भेर्यातसामिव सागरौ वैरोचनो बलिसङ्केशोऽशुराणां च यानं वै कायसं नाम कामघमय निर्मितं सर्वसाङ्घ्रामिको प्रभो अप्रतर्क्यम् आन... निर्देश्यम् दृश्यमानं मदर्शनम् आस्तितस्तत् विमानार्घ्यं सर्वा नी निघाति जे चन्द्रयि बोधये तस्यासन् सर्वतो यानैर्यूतानां पतयो सुराः प्रेहतिर् हेतिरुवल सकुनिर्भूतसन्तापो वज्रतं श्रो विरोचनः हयग्रीवसङ्कुशिराकपिलो मेघधुन्दुभिः तारकश्चक्रधृक्शुम्भो निशुम्भो जम्भवुत्कलः अरिष्टोरिष्टनेमिश्च मयश्च त्रिपुराधिभः अन्ये पौलोमकालयो निवातकवचादयः अलब्धभागा सोमस्य के केवलं क्लेशभागिनः सर्वगेतेरणमुखे भगुशो निर्जितामराः सिंहनादान् विमुञ्चन्त शङ्कान् दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित्कुपितो भृशम् ऐरावतं धिक्करिणं मारुटः सुषभेश्वराठ यथाश्रवत्प्रश्रवणम् उदयाद्रिमहर्पतिः तस्यासन् सर्वतो देवानावाहद्वजायुधाः लोकपाला सह गणेर्वायवग्निवरुणादयः तेऽन्योन्यमभिसंवृत्य शिपन्तो मर्मभिर्मितः आह्वयन्तोऽ सन्तोक्रे ययुधुर्द्वन्त्वयोदिनः युयोदबलिरिन्द्रेण तारकेण गुहोष्यथ वरुणो हेतिना युध्यत् मित्रो राजन्प्रहेतिना यमस्तु कलनाभेन विश्वकर्मामयेन वै शम्भरो युयुधे द्वष्ट्रा सवित्रा तु विरोचनः अपराजितेन न मुचि अश्विनो वृषपर्वणा सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः सतेन च राहुणा च तता सोमः पुलोम्ना यु निशम्बशम्भयोर्देवी भद्रकालीतरस्विनी वृषाकपिस्तु शम्बेन महिषेण विभावसुः इल्बलः सखवाताभिर्ब्रह्मपुत्रैररिन्धमा कामदेवेन दुर्मर्श उत्कलो मातृभिः सह यैर्वासवोमराः विश्वे देवास्तु पौलोमयि रुद्राक्रोधवसैः सह त च युध्यमानाः अन्योन्यम्मा सा जनि जग्नो ओजसा जिकिशह्वस्तीक्ष्णसरासि तोमरैः पुषुण्डीभिश्चप्रगतर्ष्टिपट्टिषै शक्त्युल्मुकै, प्रसापरस्वधैरपि निस्त्रिं सभल्लैः परिघै समुद्गरैः गजास्तुरङ्घाः शरतापधातयः सरोः वाहाविविता तेषां बाधाघातरथाङ्कचूर्णितात् आयोधनातुल्भणवुत्थितस्तधा रेणुर्दिशक्कन्द्युमणिं च चादयन् न्यवर्तदाश्रुक्षुदिभिः परिप्लुतात् शिरोभिरुद्धूतकिरीडकुण्डलैः सम्भ्रम्भदृग्भिपरिदष्टदश्च तैः महाभुजैः सा भरणसखायुतैः सा प्रस्तृता भूकरोरुभिर्बभौ कभन्धास्तत्र शोत्पेथुः पतितस्वशिरोशिभिः उद्यतायुधोर्धण्टै आधावन्तो भटान् मृधेम् बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः चतुर्भिश्चतुरो वाचयत् सतानापतच्छक्रस्तावद्भिशीघ्रविक्रमः चिच्चेतनिशितैर्भल्लै असम्प्राप्तान् हसन्निव तस्य कर्मोत्तमम् वीक्ष्य दुर्मर्षशक्तिमाददे तां ज्वलन्तीं महोल्काभां हस्तस्तामच्चिनत् हरिः तत शूलं ततः प्रासं ततस्तोमरमुष्टयः तद्य शस्त्रं समाधत्या सर्वं तत्तच्चिनद्विभुः ससर्जातासुरि मायामन्तर्धानकतोऽसुरः ततः प्रादुरभुच्छैलः शुरानीकोपरि प्रभो ततो निपेतुस्तरबोधक्यमानाधवाग्निनः शिलाः सटङ्कशिकारः सोर्णयन्त्यो द्विषत् बलं महोरघासमुत्पेतोर्दन्तः सुकासौवृच्छिकाः सिंहव्याघ्रवराश्च मर्दयन्तो ततो महाघनाव्योम्नि गम्भीर परुषस्वनाहान् अङ्गारान्मुचुर्वा तै आहतास्तनयित् ृष्टो दैत्येन सुमहान् वग्निस्वशनसारधिः साम्बर्तकयि वात्युग्रो विबुधत्वजिनीमधाग ततः समुद्र उत्वेलः सर्वतः प्रत्यदृश्यत प्रचण्डवातैर्बुद्धोदतरङ्गावर्तभीषणः एवं दैत्यर्महामायै अलक्ष्य सृज्यमानासु मायासु विषेधुसुरसैनिकाः न तत्प्रतिविधिं यत्र विदुर्यिन्त्राधयो नृपान् ध्यातः प्रादूरभूतत्र भगवान् विश्वभावनः ततः सुपर्णांसकृताङ्घ्रिपल्लवपिशङ्गवासान्नवगञ्झलोचनः अदृश्यताष्ट्यायुधभाहुरुल्लश्रीगौरिस्तुबानर्यकिरीटकुण्डलः तस्मिन् प्रविष्टे सुरकूटकर्म जामाया विनेशुर्महीनामकीयसः स्वप्नो यथा हि प्रदिभोत आगते हरिस्मृतिस्सर्वविभत् विमोक्षणम् दृष्ट्वा मृदे गरुडवाघम् इभारिवाह आविद्यसुलमकिनो धतकालनेमिहे तल्लीलया गरुडमूर्तिपधत् गृहीत्वा ते नाघनन्द्रुपसपाहमरिं त्रयधीशः मालीसु माल्यदि बलौ युधिभेदुर्यचक्रेण कृत्तशिरसावथमाल्यवांस्तम् आहत्य दिग्मगदयाघनतण्डजेन्द्रं तावच्चिरोच्चिनत्तरेर्नदतोरिणाध्यः इति श्रीमद्भागवते महापुराणे अष्टमस्तन्धे देवासुरसङ्ग्रामे दशमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजिकी जय